देवीनारायणीयं दशकम् इलवन् श्रीनारदःपद्मजमेकदाः पितया सृष्टमिदं जगत् किं किं विष्णुना वा गिरिशेन वा किमकर्तृकं वा सकलेश्वरक्कः ितिरितोऽजसुतमाह साधु पृष्ठन् त्वया नारद मां शृणुत्वं विभाति देवी खलु सर्वशक्तिस्वरूपिणी भुवनस्य हेतुः एकं परं ब्रह्म सदद्वितीयमात्मे न सा पुमान् स्त्री च न निर्गुणा सा स्त्रीत्वं च पुंस्त्वं च गुणैर्दधाति तत्रैव सर्वञ्च भवेत् सैवाखिलन्नास्ति जकिजनान्यद् गौणानि चान्धकरणेन्द्रियाणि सा निर्गुणा वाङ्मदिगोचरा च सा स्तोत्र मन्त्रैः स गुणा सुधा समुद्रे वसदीयमार्याद्वीपे विचित्राद्भुतशक्तियुक्ता सर्वं जगद्यद्वशगं वयं च त्रिमूर्तयो नाम यदाश्रितास्मः स्मः तदत्तशक्तित्रयमात्रभाजस्त्रिमूर्तयः पुत्र वयं विनीताः तदा ज्ञया साधु सदापि कुर्मो ब्रह्माण्डसर्गस्थिति संहृतिश्च दैवेन मूढङ्गविमादनोति सा दुर्बलं दुः प्रबलं करोति पङ्खुं गिरिं च मोकम् कृपावती चात्र नु ते सुवाचं यत्किञ्चिदज्ञायि मया महत्त्वं देव्यास्तदुक्तं तव सङ्ग्रहेण सर्वत्र तद्वर्णयविस्तरेण विधत्स्वभक्तिं हृदये जनानाम् इति रितो जेनमुनिः प्रसन्नस्तव प्रभावं करुणार्द्रचिते व्यासन् तथान्यांश्च यथोचितं स प्रबोधयामास पवित्रवाग्भिः न मे वक्ता न मे अवाच्य मकार्यकर्ता नमामि मातश्चरणाम् भुजन्ते ओ देवीनारायणीयं दशकं ट्वेल् पुरा द्विच कश्चन देवदत्तो नाम प्रजार्थन्तमसा समीपे कुर्वन्मखङ्गोऽभिलशापवाचा लेभे सुतम् मूढमनन्ददुःखः उदध्यनामा ववृद्धे स बालो मूढस्तु दृष्टन्न ददर्श किञ्चित् श्रुतं न शुश्राव जगादनैव पृष्टो न च स्नानजपादिचक्रे इतस्ततोढन् समवाप्तगङ्गो जले निमज्जन्प्रपिभंस्तदेव वसन्मुनीनामुडजेषु वेदमन्त्रांश्च शृण्वन् स दिनानि क्रमेण सत्सङ्गविवृद्धसत्त्व सत्यव्रतः सत्यतपश्च भूत्वा ना सत्यवाक्त्व कृपया स मूढोऽप्युन्मीलितान्तर्नयनो बभूव कुलं पवित्रञ्जननी विशुद्धा पिता जसत् कर्म रतः सदा मे मया कृदन्नैव निषिद्धकर्म तथापि मूढोऽस्मि जनैश्च निन्द्यः जन्मान्तरे किन्नु कृतं मया कङ्किं वा न विद्यार्थिजनस्य दत्ता ग्रन्थोऽप्यदत्त किमुपूज्य पूजा कृता न किं विधिवन्न जाने नाकारणङ्कार्यमितिर्यदेहि दैवं बलिष्ठन् दुरधिक्रमं च ततोऽत्र मूढो विफलीकृतोऽस्मि वन्द्यध्रुवन्नुर्जलमेकवच्च इत्यादिसञ्चिन्त्य वने स्थितः स कदाचिदेकं रुधिराप्लुताङ्गं बीभत्सरूपं किडिमेष पश्यन्नै यै्य इत्युत्स्वनमुच्चचाररेण शरेण स किरिर्भयार्थः प्रवेपमानो मुनिवासदेशे अन्तर्निकुञ्चस्य गतश्च दैवादृश्यदामापभयार्तिहन्त्रि विना मकारञ्च विना च भक्त्रिमुच्चार्य वाग्बीजमनुं पवित्रं प्रसन्नबुद्धि कृपया त वैषबभूव दूरीकृत सर्वपापः नाहङ्कविर्गानविचक्षणो नडो न शिल्पादिषु न प्रवीणः पश्यात्र मां मूढमनन्यबन्धुं प्रसन्नबुद्धिं कुरु मान्नमस्ते ओ देवीनारायणीयं दशकं तर्टीन् अधागध कश्चिदधिज्यधन्वा मुनिं निषादः सहसा जगाद त्वं सत्यवाग्ब्रूहि मुने त्वया किं दृष्ट दृष्टस्त्वया गदो न वा दृश्यद किं दिगपोष्यवर्गः श्रुत्वा निषादस्य वचो मुनिः स वदामि किं दृष्टदिर्यते चेद्धन्यादयन्तं मम चाप्यकं स्यात् सत्यं नरं रक्षति रक्षितं चेदसत्यवक्ता नरकं व्रजे च सत्यं हि सत्यं सदयन्न सत्यं कृपा शून्यमिदं मदं मे एवं दृष्टस्त्वया किं स किडिर्न मुनिस्तमाहत्र पुनः पुनः किन्निषाद मां पृच्छसि मोहमग्नः पश्यन्न पश्येदलं वाग्भिरवेहि सत्यम् उन्मादिनो जल्पनमेदेवं मत्वा निषादः सहसा जगाम अतश्च सर्वं तव देवि लीलाः द्रष्टापरं ब्रह्म तदेव च स्यादितिश्रुदिः प्राहनभाषते सः सदा ब्रुवाणस्तु न पश्यतीदमयं हि सत्यव्रतवाक्यसारः भूयः ससारस्वतबीजमन्द्रञ्जिरञ्जपनिधिकविश्च वाल्मीकिवत्सर्वदिशि प्रसिद्धो बभूव बन्धून् समतर्पयच्च स्मृतानदा देवी सुपूजिता वा वा खलु वन्दिता वा ददासि नित्यं हिदमाश्रितेभ्यः कृपार्द्रचिते सततं नमस्ते दशकम 14 ी नारायणीय दशक फोर्टी राजसलोत्सलु धर्मकनिष्ठोधुसंधि आस्ता प्रिश मनोरमा चीलवी चेदि दृढ़ा मनोरमासोदसुदर्शनाख्यं कुमारकं शत्रुजितं च सान्या संवर्धयस्तौ मृगया विहारी वने नृपोहा हरिणाहदोऽभूत् विचिन्तयन् वृत्तं तज्ज्येष्ठपुत्रस्य सुदर्शनस्य राज्याभिषेकाय गुरुर्वसिष्ठश्चकारमन्त्रं सचिवैः समेतः मादामहशत्रुजिदो युधा जिदभ्येत्य सद्योमिद वीर्यशाली राज्येष्वदौहित्रमिहाभिषिक्तं कर्तुं कुबुद्धि कुरुते मनोरमाया अपि वीरसेनः पिताभ्युपेत्याशुरुरोथ तस्य यत्नं बली स्वस्वसुता सुदाभिषेकैकबुद्धिः खलु तावभूता कृत्वा विवादं च तदो नृपौ द्वौ खोरं युधा जिता तत्र तु वीरसेनो दैवाधदो भूधरिणा करीव राज्येऽभिषिखतः खलु शत्रुजित्स बालस्ततोऽयं रिपुभिद्युधा जित् दौहित्र राज्यं सुखमेकनाथस्य दिवं महेशी पत्युः पितुश्चापि मृतेरनाथा भीता विदल्लाभिदमन्त्रियुक्ता भी भी मनोरमा बालसुतात्वरण्ये ययौ भरद्वाजमुनिं शरण्यं तपोनिधिर्दिनजनानुकम्भि ज्ञात्वा मुनिस् ध्रुवसन्धिपत्नी उवाच वत्सेवस निर्भयैव तपोवनेत्रास्तु शुभन्तवेदी। अल्पो न रिपूर्णरोगोऽप्येवं स्मरन्नाशु नृपो युधाजित् तां हर्तुकामः स सुतां प्रापाश्रमम् मन्त्रिवरेण साकं न मानितस्तेन मनोरमाम् स मनोरमां नैव सुतं च लेभे प्रभर्तुकामोऽपि मुनिं स मन्त्रि एवं मुनिस्थां ससुतां रक्षभिस्मि संसारयुधाजितोऽहं नमे सहायोऽस्ति विना त्वयैष स नूपुरं ते चरणं नमामि देवी देवीनारायणीयं दशकं फिफ्टीन् एवं तवैव कृपया मुनिवर्यशीदच्छायाश्रितो हदभयसुदर्शनोऽयं वेदध्वनिश्रवणबोधहृताश्रमान्ते सम्मोदयन्मुनिजनान्ववृधे कुमारः आबाल्यमेष मुनिबालकसङ्गमे न क्लीं क्लीमिदीश्वरि सदा तव बीजमन्त्रं तत्रोच्चचारकृपयास्य पुरः कदाचिदाविर्बभूविदनदन्तमभाषधाश्च प्रीतास्मि ते सुतजगज्जननीमवेहि मां सर्वकामवरदाम् तव भद्रमस्तु चन्द्राननां शशिकलां विमलां सुबाहो काशीश्वरस्य तनयां विधिनोद्वहत्वं नष्टा भवेयुरचिरेण तवारिवर्गा राज्यं च यैरपहृदं पुनरेष्यसि त्वम् माद्रद्वयेन मतृद्विवैश्च सधर्मा कुदीद स्वने शशिकला कथितास्जाश्रे प्रधल वंश जाता धीमान् सुदर्शनयिदि ध्रुवसन्ति पुत्रयेन पदिं वृणुतवास्तु शुभं स देदि स्वप्नानुभोदमनृतं किमृतं न पृष्टात् सुदर्शनकथां सुमुखी द्विजात् सा श्रुत्वानुरक्त हृदयैव बभूव देवी ज्ञात्वा सहेष्टपत्न्या कृत्वा प्रयत्नमखिलं विफलञ्च पश्यन्निच्चास्वयं वरविधिं चिदमेव मेने कश्चित् कदाचन सुदर्शनमेत्य विप्राहा गदशिकला वचसामत्र सा त्वां ब्रवीदि नृपपुत्रजगज्जनन्या वाचावृतोऽसि पतिरस्मितवै वदासी अत्रागदा नृपतयो बहवस्त्वमेत्य तेषां सुधीरमिषदान्नय मां प्रियां ते ं वधूवचनमानयतां सुशीलां भद्रन्तवास्त्विदमुदीर्य जगामविप्रः स्वप्ने च जाग्रति च पश्यदि भक्रवर्यस्त्वां सन्ततं तव मधुरं शृणोति ऐश्वर्यमाशु लभतेऽपि च मुक्रिमे दित्वद्भक्रिमेव मम देहि नमो जनन्यै देवी नारायणीयं दशकं सिक्स्टीन् श्रुत्वावधो वाक्यमरं कुमारो हृष्टो भरद्वाजमुनिं प्रणम्य आपृच्छ्य मात्रा सह देवि सत्वां स्मरन् रथेनापुरं सुबाहोः स्वयंवराहोदमही भुजां स सभां प्रविष्टो हदभिर्निषण्णः कन्याकलापूर्णशित्वसाविद्याहुर्जनास्तामभिवीक्षमाणाः वधूश्च तद्दर्शनवर्धितानुरागा स्मरन्ती तव वाक्यसारं सभा नृपाणामचितेन्द्रियाणां पितृचोदितापि शङ्काकुलास्ते नृपरा बभूवुरुच्चैर्युधाचित्कुपितो जगाद मा दीयताल्लोकहितानभिज्ञा वधूरशक्ताय सुदर्शनाय बालोऽयमित्येषमया श्रमे प्रागुपेक्षितः श्रोत्ररिपुत्वमेदि मायं च वध्वा व्रियतां पृतश्चेधन्यामिमं तां च हरेयमाशु श्रुत्वा युधा जिद्वजनं हितैषिणः केचिदुपेत्य सर्वं सुदर्शनं प्रोजुरथाभिधीरः स निर्भयो सुदर्शनश्च युधाजिदन्यत्र बली सकोपः नृपः सुबाहुर्बद्धाञ्जलिप्राः नृपान्विनम्रः नृपावचो नुर्पा मे शृणुते कबाला नायादिपुत्री मम मण्डपेऽत्र तत्क्षम्यतां स्तोत्र याताद्यवो विश्रममन्दिराणि गदेषु सर्वेषु सुदर्शनस्तु त्वां संस्मरन् मा नृस्थितानुसारी दत्तां वधूं यदा विद्युदुवाहदेवि प्रादर्युधाजिप्रबलो विवाहवार्तान्निशम्यात रुषा ससैन्यः सुदर्शनं मातृवधूसमेदैयात्रोन्मुखं भीमरवोरुरोध तदोरणे खोरतरे सुबाहु विरासी समुचार्विरासीमरांगणे विंहाधिूास्वनायन कथयन गुणस्थ पूजय्चा नया कालम स्वप्नेऽपि दृष्टानमया त्वमम्बे कृपाङ्कुरुत्वं मयि ते नमोऽस्तु ओ देवीनारायणीयं दशकं सेवेन्टीन् युधाजितं शत्रुजितं जिदंचा च भत्वा रणाङ्गणस्था नुदिभिः सुबाहुमुख्या ननुगृह्य भक्तान् सर्वेषु पश्यत्सु तिरोदधा पृष्टो नृपान् प्राह सुदर्शनस्तान् दृष्टा भवद्भिः खलु सर्वशक्ता या निर्गुणा योगिभिरप्यदृश्या दृश्या च भक्तैः स गुणा विनीतैः या सृजदीव शक्ति या पालयदीव विश्वं यातामसी तामसी संहरदेव सर्वं सद्वस्तु सैवान्य इसा, भक्ता ही कुणायी साक्तृहांध प्रकाम वसन भरद्वाज तपोवना चिराय सहता भजेह तामेव भक्र्या भजतेह भुक्रिमुक्रिप्रदामस्तु शुभं सदावः वः श्रुत्वे दमानं प्रमुखास्तथेदि सम्मन्द्र्यभूपाश्च ततो निवृत्ताः सुदर्शनो मा ध्रुवधूसमेदः सुबाहु पुरीमयोध्यां प्रविशन् पुरेव सीतापदिस्तोषयति स्म प्राप्य विमातरं च नत्वा विशन्नाम् हतपुत्रतां सदुक्तिभिः ससांत्वयामास गतिः प्रबोध्य जनेषु पश्यत्सु सुदर्शनोत्र त्वां पूजयित्वा गुरुणाभिषिक्रः राज्ये त्वदीयं गृहमाशु कृत्वा पूजाविधानादि च संवृधत्त तस्मिन्नृपे कृत्वा जनाः प्रदिग्राममपूजयस्त्वां काश्यां सुबाहुश्च तथा करोत्ते सर्वत्र पेधुक् करुणा कडाक्षाः न कर्मणा न प्रजया धनेन न योगसाङ्ख्यादिविचिन्तया च न च सुखानुभूतिर्भक्त्यैव मर्त्य सुखमेधि मादः नाहं सुबाहुश्च सुदर्शनश्च न मे भरद्वाजमुनिःशरण्यः महेश्वरित्वाम् बन्धुरपि नमामि ो देवीनारायणीयं दशकम् एय्टीन् सूर्यान्वये दाशरधीरमेशो रामाभिदोऽभूद्भरदोऽधजातः ज्येष्ठानुवर्ती खलु लक्ष्मणश्च शत्रुघ्ननामाभि विमादृवाक्योचितराज्यभोगो रामः सीतः सह लक्ष्मणश्च चरञ्जडावल्कलवानरण्ये गोदावरीतीरमवापदेवि तं वञ्चयन् रावणेत्य मायी यतिरूपधारी रामस्य पत्नी विरहादुरस्य श्रुत्वा विलापं वनमप्यरोदीत् श्रीनारदोऽभ्येत्य जगादरामं किं रोदिषि प्राकृतमर्त्यतुल्यः त्वं रावणं हन्तु मिहावतीर्णो हरिः कथं कृते युगे वेदवदिति कन्या हरिं श्रुतिज्ञा पदिमाप्तुमैच्छत् सा पुष्करद्वीपगदा तदर्थमेकाकिनी तीव्रतपश्चकार श्रुता तया बोधशरीरिवाक्ते हरिःपदेर्भाविनि जन्मनि स्यात् निशम्य तद्दृष्टमनस्तथैव कृत्वा तपस्तत्र निनायकालं तां रावणः कामशरार्दितः संश्चकर्षसा च स्तवनेन देवीं प्रसाद्यकोपारुण लोचनाभ्यान्निरीक्ष्य तन्निश्चलमातता न शशापतञ्च त्वमरेमदर्थे स बान्धवो राक्षस नङ्क्ष्यसीति स्वं कौणपस्पृष्टमशुद्धदेहं योगेन सद्यो विजहौ ्यादा पुनः सामिथिलेशकन्या काले करिन्त्वां पदिमापदैवात् स कन्यतां सत्वरमाशरेन्द्रस्तन्नाशकालस्तु समागतश्च तदर्थमाराधय लोकनाथां नवाकयज्ञेन कृतोपवासः प्रसाद्यतामेव सुरानराश्च कामान् लभन्ते शोभमेव ते स्यात् इत्युजीवां संमुनिमेव राम आचार्यमाकल्प्य स लक्ष्मणस्त्वां सम्पूज्य सुस्मेरमुखीं व्रतान्ते सिंहाधिरूढाञ्च पुरोदर्श भक्त्या न तन्त्रुतमाधराम हरिस्त्वमंशेन मदाज्ञयैव जादो नरत्वेन दशास्य हत्यै ददामे तच्छक्रिमहं तवेभ श्रुत्वा तवो कृं हनुमदाद्यै सा गङ्कपीन्द्रैः कृदसेदुबन्धः लङ्कां प्रविष्टोहतरावणाद्यः पुरीमयोध्यामगमत्ससितः हा देवि भक्तिर्नहि मे गुरुश्च न चैव सत्सङ्गतिश्चापि न दे पतन्तु कृपाकडाक्षा मयि ते नमोऽस्तु ओ देवीनारायणीयं दशकं नयन्तीन् पुराधरा दुर्जनभारदिना समं सुरभ्या विबुधैश्च देवि विधिं समेत्य स्वदशामुवाच स चानयक्षीरपयोनिधिं तान् स्तुतो हरिः पद्मभवेन सर्वं ज्ञात्वा किलान् साञ्चलिबद्धमाह ब्रह्मन् सुरा नैव वयं स्वतन्त्रा दैवं बलीह्यः किमहङ्करोमि दैवेन निधः खलु मत्स्यकोर्मकोलादिजन्मान्यवशो समाप्तः नृसिंहभावाददिभिकरत्वं जातः पुनर्दाशरथिश्च दुःखाद्दुःखं गदोऽहं विपिनान्दचारी राज्यं च नष्टं दयिता प्लवगा सहायाः कृत्वा रणं भीममरिं राज्यंच पत्नी चाज्य पुनर्गृह दुष्टापवादन पदी व्रताय हादुशिग्रह यदि स्वतंत्रों ममर्न सवयकर्मकलापब्धा तदापि मायवशगास्ततोऽत्र मायाधिनादां शरणं व्रजामः इति लितैर्भक्तिविनंशीर्षैर्निमीलिताक्षैर्विबुधैस्मृता त्वं प्रभातसङ्ख्येव जपासुमाङ्गी तमो निहन्द्री च पुरस्थिताद्ध जाने दशाम्बो वसुदेवपुत्रो भूत्वा हरिर्दुष्टजनान्निहन्दा तदर्थशक्रीरहमस्य दद्यामंशेन जाये यचानन्दपुत्री यूयं च साहाय्यममुष्यकर्तुमं सेन देवा जयिता समेधाः जायेध्व्या भद्रमेवं विनिर्दिश्य तिरोदधाध विचित्रदुष्टा सुरभावभारनिपीडितं मे हृदयं महेशि अत्रावतीर्येदमपाकुरु त्वम् मादािमेदे वरदे नमोस्तु ओ देवी नारायणीयं दशकं ट्वी अधोरुपुण्ये मधुरापुरे तु विभूषिते मौग्रिगमालिकाभिः श्रीदेवगीशौरिविवाकरङ्गे सर्वैः श्रुतं व्योमवचस्फुडार्थम् अवेहि भो देवकनन्दनाया सुतोष्टमक्कं निरुद्धो वसुदेवमुख्यैः अथा ह शौरिशृणुकं स पुत्रान् ददामि ते स्याश्यपथं करोमि एतद्वजो मे व्यभिचर्यदे चेन्मत्पूर्वजादा नरके पदन्तु श्रद्धाय शौरेर्वचनं सर्वे तुष्टा यदवो नगर्यां तौ दम्पदी चोशतुरातमोदं काले सदि पुत्रमसूदताधक्कं साय निशङ्कमदात्सुदं स्वम् अन्दानमेयं शिशुरित्युदीर्य तं प्रत्यदाद्भोजपतिश्च तस्मै अथाशुभूभारविनाशनाख्यत्वन्नाटकप्रेक्षणकौतुगेन श्रीनारदः सर्वविदेत्यकं समदृश्यहासं सकलं जगाद त्वम्भोपदैत्यः खलु कालनेमिर्जगत्प्रसिद्धो हरिणाहतश्च ततोऽत्र जातोऽसि सुराहरिश्च त्वां बन्तुमिच्छन्त्यधुनापि शत्रुं देवास्तदर्थन्नररूपिणोत्र व्रजे च जादा वसुदेवमुख्याः नन्दादयश्च त्रिदशायमेन विस्रम्भणीया न बान्धवास्ते त्वं व्योमवाणीं स्मरदेवकस्य पुत्र्याः सुतेष्वष्टमदां गतः सन् सत्त्वान्निकन्ताहरिरेव शत्रुरल्पो विनोपेक्ष्य इतीर्यतेहि सर्वात्मजानान् नृपमेलने स्याः सर्वेष्ठमास्युः प्रथमे च सर्वे मायाविनं विद्धि हरिं सदेधि गदे मुनौ क्रोधमियायकं सः सदैवगीसूनुमरञ्जखानकारागृहेतां पदीमप्यबध्नात् तयो सुदान् षट्खलु जातमात्रान् हत्वा कृतं स्वं हितमेव मेने पायेन वाजा मनसेन्द्रियैर्वा मा जादुपापं देवी देवि ममास्तु सत्कर्मरधिप्रियस्ते भवानि भक्तं गुरुमान्नमस्ते ओ